नमस्कारः अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतं गतवर्गे अस्माभिः एण्ट्रोपि अपि च एन्ताल्पि इत्यनयोः विषये चर्चा कृता तत्र केचन प्रश्नाः आगताः तस्य समाधानम् अद्य वक्तुम् इच्छामि एन्ट्रोपि प्रथमतया एन्ट्रोपि इत्यस्य स्पेल्लिङ्ग् इ e एन् टि आर् ओ पि वै पि एच् वै इति न पि वै -E एन्ताल् पि इ एन् टि एच् एल् पि -E इति एन्ताल् इति एन्ट्रोपि एन्ताल्पि इति तु दे आर् लास् आफ् थर्मोडैनमिक्स् फिसिक्स् भौतिकशास्त्रे अन्तर् अन्तर्गतौ एतौ विषयौ सुसिद्धौ इत्युक्ते तियरी इति नास्ति केवलं सिद्धान्तः इति नास्ति दे आर् वेल् प्रूव्ड् दिस् आर् लास् आफ़् तर्मोडैनमिक्स् एण्ड् दे वर्क् ओन्लि इन् क्लोस् सिस्टम्स् क्लोस् सिस्टम्स् तेषां कार्यं भवति क्लोस् सिस्टम्स् क्लोस् सिस्टम् इत्यस्य अर्थः कः इति चेत् ह्यूमन् सेटप् human made system human defined system etra vayam atatra kanchit vyavastham atwa kanchit vyavastham stapayamaha there we have our own standards of what we want what are the goals for that system we set up those goals and we set up how we want to have them work man tadeva right? closed system closed system etra eva asya asya karyam bhavati entropy enthalpy so entropy ityasya entropy is is a measure of disorderliness in a in a closed system the disorderliness if you uh, say d arranged atmakam golastit tasya apekshiya d arranged way athava randomly itiva emada randomly randomly so disarranged or d arranged or uh, randomly tasya uh, artha kaha itiche kimapi tatra tightly packed nasti yatra closed systems madye किमपि टैट्लि पेक्ट् नास्ति यथा तत्र घटे घटे जलम् अस्ति घटे जलं यदस्ति तत्तु क्लोस् सिस्टम् अस्ति बहिः अन्यत्र जलमस्ति तत्तु क्लोस् सिस्टम् नास्ति इदानीम् अत्र एन्ट्रोपि एन्टाल्पि इत्यस्य विषयः क्लोस् सिस्टम्स् मध्ये भवति अस्माभिः चर्चितं यत् तत्र कार्यकारणभावस्य अथवा अन्ये नियमानां भङ्गः भवति वा इति चेत् कार्यकारणभावः अथवा तत्र प्रकृतेः नियमानां भङ्गः न भवति तेषां तु कार्यं भवति तत्र जलस्य प्रवाहः कार्यानुस कार्यकारणभावानुसारमेव भवति तत्र न कोऽपि संशयः परन्तु तत्र औट्कम् द औट्कम् आफ् द ओफ़् द फ्लोयिङ्ग् इस् द एण्ड् रिसल्ट् इस् देर् आल् स्प्रेड् अराौण्ट् दे आर् नाट् टैटलि पाक्ड् लैक् दे विल् बी पाक्ड् इन् इ् वे आर् प्लेस्ड् इन् द इन् दटा सो दस् वाट् इस् ण्डम्नेस् दट् इस् वाट् इस्डर्लनेस् इस् नाट् अबौट् द प्रासेस् आफ़् फ्लोयिङ्ग् फ्लोयिङ्ग् टु कार्यकारणभावानुसारमेव भवति परन्तु यदा तत्र प्रवाहः भवति द एण्ड् रिजल्ट् विल् नाट् बि लैक् द वे वि वाण्ट् इट् फार् द सिस्टम् तत्र सिस्टम् मध्ये अस्माकं लक्ष्यं किमपि भवति तस्य अपेक्षा तथा न भवति इट् इस् नाट् इफ् यु वाण्ट् द वाटर् टु बि इन् द पाट् देन् वेन् देन् द वाटर् इस् स्टाण्डल् ओन् वाटर् इट् इस् नाट् गोयिङ्ग् टु बि इन् द शेप् आफ़् दट् पाट् इट् इस् नाट् गोयिन् टु बि आल् टैट्ल प्याक्ट् द मालिक्यूल्स् आफ़् द वाटर् आर् नाट् गोयिन् टु बि टैट्ली पाक्ट् लैक् द वे वे आर् गोयिङ्ग् टु बि प्याक्ट् इन् अ तदानीं तत्र रेण्डम्नेस् इति वयं वदामः डिज़रेञ्ज्ड् इति वयं वदामः अयमेव मूलविषयः अस्ति तत्र uh, यत्किमपि वस्तु जगति भवति तत् स्वभाक् स्वाभाविकतया आयोजकं न भवति सर्वं अव्यवस्थितमेव uh, भवितुम् uh, इच, uh, इच्छ, uh, इच्छति इति तत्तु एन्ट्रोपि एन्थाल्पि इत्युक्ते एनर्जि दि अमौण्ट् आफ़् एनर्जि न सिस्टम् एनर्जि न क्लोस् सिस्टम् इदानीं तत्र उदाहरणं वयं स्वीकृत्य वयं द्रष्टुं शक्नुमः क्लोस् सिस्टम् इत्युक्ते यथा गटे जलं गटे जलं तत् क्लोस् सिस्टम् अस्ति कूप्यां सुगन्धः पर्फ्यूम् इन् अ बाटल् अथवा गृहे प्रकोष्टः एतानि सर्वाणि उदाहरणानि क्लोस् सिस्टम् इत्यस्य उदाहरणानि इदानीं तत्र एतानि उदाहरणानि एकवारं दृष्ट्वा तदनन्तरं विश्वस्य चिन्तनं वयं कर्तुं शक्नुमः विश्वस्य पृष्ठतः बुद्धिः अस्ति इति अस्माभिः सर्वैः अङ्गीक्रियते तत्र न कोऽपि संशयः इति अस्माकं धारणा विश्वस्य पृष्ठतः बुद्धिः अस्ति इति धारणा अत्र तर्कपूर्णा एव अविवेकापूर्णा इति नास्ति खलु तत् तस्य विषये इदानीम् अग्रे वयं पश्यामः तर्हि क्लोस् सिस्टम् इस् वन् विच् इस् ऐसोलेटेड् फ्रम् दि औट्सैड् वर्ल्ड् देट् इन् सच् अ वे देट् इत् इन् आर्डर् टु मेण्टेन् इट् सेल्फ् इट् it needs an external uh, support system for the continued survival of the closed system it needs the force from outside to maintain maximum uh, energy and minimum entropy so the, the goal in the closed system is to maintain maximum uh, enthalpy maximum energy and low randomness minimum entropy minimum randomness that is the goal so uh, without an external force without an external force in each of the scenarios that i'll be talking about like the water in a pot or the room in a house or a perfume in a bottle in either way scenarios these are all closed systems in absence in the absence of an external buddy who is putting the efforts to maintain that system that system will drift towards increased randomness and low energy right low energy low energy etc uh energy takes up ka idena paniya maha so uh randomness itiyatva mama order itiyatva maha orderliness in the system is defined by the person is defined by the person who is setting up that system or the entity who is setting up the system so uh that is what is orderliness so we have certain goals for the system and we set it up that is what is orderliness and uh, energy energy is uh uh energy, the concept of high energy is that it takes uh, a lot of energy to create that system, to create that state of the state of minimum randomness and high energy, it takes energy to do that. Uh, it takes a lot of ongoing energy to maintain the closed system. So for a closed system, the energy source is outside the closed system, right? And it, uh, it seizes the, the – if the external source of energy seizes to exist or stops the energy then the energy will drain down the system and the high energy state will cease to exist so that is what is the energy so let, let us now actually take example and we see right udaharana udharan artham mm idanim -hmm. jalam mm jalam -hmm. gate asti che tat close system bhavati gatah kasana gatah grihyatam yasmin atma bihi jalam stapyate tatra gatam gatah jalarakam eva asti जलं यदा घटे भवति तदानीम् अत्यन्तं सुव्यवस्थितं भवति वयं नेत्रेण जलस्य अणवः ये सन्ति तान् द्रष्टुं न शक्नुमः द मोलिक्यूस् आफ़् वाटर् विच् इस् इन् द पाट् ए नाट् एबल् टु सी देम् बट् दे आर् आल् टैट्लि पेक्ड् इन् द पाट् देर् नैस्लि अरेञ्ज्ड् इन् सैड् द पाट् परन्तु तत्र यदि ते यदि ते अणवः घटे सन्ति तदा क्लोस् सिस्टम् इति वयं वदामः तत्र तत्र घटे वयं वदामः एक गेलन् वाटर् जलमस्ति अथवा एकलीटर् वाटर् जलमस्ति इति तथा वयं वक्तुं शक्नुमः तर्हि तत्र जलं यदा घटे भवति तदानीं गटस्य आकारे तिष्ठति जलं तत्र जलस्य अन्ते अणवः जलस्य अणवः अत्यन्तं सुव्य सुव्यवस्थिताः भवन्ति वयं तु नेत्रेण न द्रष्टुं शक्नुमः परन्तु ते तत्र सन्ति तर्हि तत्तु यदा तत्र जलं गटे वर्तते तदानीं तत्र सुव्यवस्थित अवस्थायां यदा वर्तते तदानीं वयं किं वदामः देर् इस् है आर्डर् देर् है है आर्डर्लिनेस् तत्र लो रेण्डंनेस् अस्ति लो राण्डम्नेस् अस्ति है एनर्जि अस्ति यतोहि अस्माभिः एफर्ट्स् स्वीकृतं खलु तत्सर्वं स्थापयितुम् अस्माभिः एफर्ट्स् यदि इति कृत्वा तत्र है एनर्जि अस्ति अपि च लो रेण्डम्नेस् अस्ति यतोहि जलं तत्र सम्यक्तया सुव्यवस्थितम् अस्ति इदानीं तत्र तत्र घटे जलस्य अणवः सम्यक्तया तत्र सम्यक्तया स्थापितं द मालिक्यूल्स् आफ़् द वाटर् आर् नैस्लि अरेञ्ज्ड् लैक् इन् रोस् ते सर्वे घटे भवन्ति यथा तत्र कक्षायां छात्राः तिष्ठन्ति तथा अणवः सर्वे घटे सम्यक्तया उपविष्टाः सन्ति इति तेषां स्वाभाविकी प्रवृत्तिः तथा नास्ति जलस्य स्वाभाविकी प्रवृत्तिः तथा नास्ति यदा घटः घटं निष्कासयामः तदानीं जलं तथा न तिष्ठति तत्र तत्र, तत्र क्लोस् सिस्टम् मध्ये ध्वनिः क्लोस् सिस्टम् मध्ये एव तथा भवति क्लोस् सिस्टम् मध्ये जलं एवं रीत्या व्यवस्थितरूपेण तिष्ठति यदा घटं निष्कासयामः तर्हि तदानीं घटतः जलं कार्यकारणभावानुसारं सर्वत्र पतति खलु सर्वत्र पतति प पर... तत्र नियमानुसारमेव भवति इत्युक्ते फिसिकल् लास् आर् वैलेटेड् इति नास्ति नियमानुसारमेव प्रहव... प्रवहति परन्तु अन्ततो गत्वा या स्थितिः प्राप्यते सा स्थितिः व्यवस्थिता न भवति यथा अस्माभिः इष्यते अस्माकं सिस्टम् मध्ये यथा इष्यते तत्र जलं घटे सम्यक्तया टैट्लि पाक्ड् भवतु इति यथा तथा न भवति दे स्प्रेड् अरौण्ड् तदेव हैलि डिसार्डर्ड् डिज़ार्डर्ड् अवस्थायां जलं भवति जल जलस्य अणवः तथा व्यवस्थिताः न भवन्ति कठिनतया कठिनतया व्यवस्था न भवति तत्र ते न टैट्लि अरेञ्ज्ड् यथा घटे जलम् आसीत् तत्र सर्वत्र भूमौ सर्वत्र ते भवन्ति भूतले सर्वत्र स्प्रेड् सिञ्चिताः भवन्ति इति तत्र जलस्य स्वाभाविकी प्रवृत्तिः अस्ति खलु तर्हि तदानीं यदा तत्र आ, यदा तत्र बहिः बहिः गच्छति तदानीं तत्र है अस्माकं आ, गोल अनुसारं तत्र है राण्डम्नेस् एण्ड् लो एनर्जि लो एनर्जि अस्ति यदी तत्र गटे जलं स्थापनीयं तदानीम् अस्माभिः प्रयत्नः क्रियते तेन जलं गटे स्थाप्यते तदानीं जलम गटे सम्यक्तया व्यवस्थितं भवति मोलिक्यूल्स् आर् टैट्लि पाक्ड् इन् दि पाट् तदर्थम् अस्माभिः प्रयत्नः करणीयः तत्र एनर्जि स्थापनीयं तदानीमेव तत्र जलं गटे भवति यदा तत्र जल तत्र घटस्य संरक्षणं न कुर्मः कालान्तरेण वी डोण्ट् मेन्टेन् द पाट् एण्ड् लेट् स इट्स् अटन् पाट् मट पाट् एण्ड् इट् स्टाट्स् ब्रेकिङ्ग् देन् दाटर् विल् बि आल् आल् ओफ़् द फ्लोर् अण्ड् दे इट् विल् बि दे विडर् रैट् दे विल् बि डिस् आर्डर् तदानीं हाई राण्डम्नेस् लो एनर्जी इति तत्र घटस्य उदाहरणम् एवं रीत्या यदि वयं गृहस्य उदाहरणं वयं पश्यामः चेत् गृहे कश्चन प्रकोष्ठः अस्ति गृहस्य यः स्वामी अस्ति तस्य लक्ष्यम् अस्ति तत्र गृहं स्वच्छतया भवतु गृहम् एकं क्लोस् सिस्टम् अस्ति गृहमेकं क्लोस् सिस्टम् अस्ति तत्र गृहस्य स्वामिनः लक्ष्यं यत् गृहं स्वच्छतया भवतु तत्र सर्वे सर्वाणि वस्तूनि यत्र यत्र भवेयुः तत्र तत्र भवेयुः इति स्वामिनः लक्ष्यम् अस्ति स्वामिनः लक्ष्यमस्ति तत् सर्वं व्यवस्थितं भवतु इति तस्य लक्ष्यमस्ति तदर्थं सर्वं व्यवस्थितं भवतु इति चेत् तदर्थं केनचित् प्रयासः परिश्रमः करणीयः व्यवस्थां स्थापयितुं केनचित् परिश्रमः करणीयः यदा परिश्रमः क्रियते तदानीं स्वच्छं भवति सुव्यवस्थितं भवति तदा तस्यां अवस्थायां तदानीं लो राण्डम्नेस् एव्रिथिङ्ग् इस् हैली आर्डर्ड् लो राण्डम्नेस् अस्ति अनन्तरं है एनर्जि अपि अस्ति यतोहि अस्माभिः तत्र एनर्जी स्थापितः सर्वं व्यवस्थापयितुम् इति कृत्वा तत्र है एनर्जि इति अपि अस्ति परन्तु तथा एव न तिष्ठति खलु गृहं यदा जनाः तत्र प्रयोगं कुर्वन्ति वस्तूनां प्रयोगं कुर्वन्ति तत्र पाकशालायां कश्चन आगत्य पात्रं स्वीकरोति स्वीकृत्य किमपि तस्य प्रयोगं कृत्वा अन्यत्र स्थापयति अनन्तरं तत्र सजीकरणम् न क्रियते चेत् कालान्तरेण तत्र दूली धूलिः अपि भवति एवं रीत्या अस्माकं स्टाण्डर्ड् अस्ति तद् गृहं स्वच्छं भवेत् आर्गनैस् भवेत् यथा अहम् इच्छामि तथा आर्गनैस् भवतु इति मम लक्ष्यम् अस्ति परन्तु तदर्थं प्रयासः न क्रियते चेत् तदानीं तत्र राण्डम्नेस् इन्क्रीज़स् द डिसार्डर्लिनेस् इन्क्रीज़स् रैट् इट् बिकम्स् मोर् डिसार्डर्ली लेस् हैली अरेञ्ज्ड् एण्ड् लेस् एनर्जी स्टेट् तस्य परिणामः यदा तत्र प्रयासः न क्रियते इत्युक्ते अत्र कार्यकारणभावस्य नियमस्य भङ्गः भवति इति न कार्यकारणस्य भाव भावानुसारं सर्वं चलति सर्वं तु नियमानुसारमेव चलति परन्तु परिणामः कः क्लोस् सिस्टम् मध्ये इति चेत् यदा अस्माभिः प्रयासः केनचित् प्रयासः बहिः सिस्टम् तः बहिः कश्चन प्रयासः न क्रियते चेत् तदानीं सिस्टं कोलाप्स् भवति तदानीं तत्र यथा इष्यते तथानीं तथा तथा सिस्टं कार्यं न करोति तत्र गृहे अव्यवस्था भवति धूलिः भवति पात्राणि यत्र भवेयुः तत्र न भवन्ति अपि पुस्तकं यत्र भव तत्र न भवति वस्त्राणि यत्र भवेयुः तत्र वस्त्राणि न भवन्ति इति एवं रीत्या तत्र डिसार्डल्नेस् आगच्छति खलु यावत्पर्यन्तं बहि बहिष्टात् केनचित् प्रयासः न क्रियते तावत्पर्यन्तं तत्र सिस्टम् आर्डर् आर्डर् न भवति अतः तत्र हाई राण्डम्नेस् आगच्छति Low यत्रे यत्रे आ, यत्रे यत्रे तत्रे तत्रे लो एनर्जि आगच्छति यदा तत्र कोऽपि आगत्य सर्वं सज्जीकरोति सर्वं यत्र यत्र वस्तु सर्वं वस्तु यत्र यत्र भवे तत्र तत्र स्थापयति तदानीं तत्र लो राण्डम्नेस् है एनर्जि इति भवति एवमेव अन्यत् उदाहरणमस्ति यथा तत्र पर्फ्यूम् पर्फ्यूम् इत्यस्य उदाहरणं तत्र सुगन्धद्रव्यं पर् पर्फ्यूम् यदि वयम् एकस्मिन् एव स्थाने स्थापयितुम् इच्छामः तर्हि वयं किं कुर्मः इति चेत् कूप्यां स्थापयामः मध्ये पर्फ्यूम् स्थापयामः तर्हि तदानीं तत्र पर्फ्यूम् बाटल् मध्ये तिष्ठति तर्हि केनचित् तत्र कथञ्चित् तत्र बाटल् मध्ये सुगन्धद्रव्यस्य तत्र एव वयं तत्र द मालिक्यूल्स् right? आफ् द पर्फ्यूम् आर् टैट्ली पाक्ड् इन् सैड् दि बाटल् रैट् इदानीम् एतत् सर्वमपि कार्यकारणभावानुसारमेव भवति तत्र कार्यकारणनियमस्य भङ्गः इति नास्ति इदानीं तत्र सर्वम् अधिकं व्यवस्थितमस्ति यथा अस्माभिः इष्यते तत्र बॉटल इति क्लोस् सिस्टम् अस्ति तत्र क्लोस् सिस्टम् मध्ये पर्फ्यूम् भवतु इति अस्माकं लक्ष्यम् इति कृत्वा अस्माभिः प्रयासः कृतः तत्र सुगन्धद्रव्यं तस्मिन् वयं स्थापयामः इति अयम् एका व्यवस्था अस्ति यदि तत्र अ, तत्र कूपीम् उद्घाटयामः तदानीं तत्र किं भवति इति चेत् तत्र, तत्र सुगन्धद्रव्यं बहिः आगच्छति बहिः प्रवहति कार्यकारणनियमानुसारं बहिः प्रवहति तत्र प्रकृतेः नियमस्य भङ्गः नास्ति परन्तु यदा तत्र प्रवहति अन्ततो गत्वा या अवस् अवस्था याम् अवस्थां पर्फ्यूम् प्राप्नोति सा अवस्था हैली आर्डर्ड् नास्ति यथा इष्यते एकस्मिन् एव भवतु इति यथा इष्यते तथा नास्ति इट् बिकम्स् वेरि हैली डिस् आर्डर्ड् रैट् इट् वास् हैलि आर्डर्ड् इन् सैड् दि बोटल् नौ इट् बिकम्स् सो टु मेण्टेन् दट् बोटल् केनचित् प्रयासः करणीयः अस्ति इदा यदा प्रयासः क्रियते तदानीम् आर्डर्लिनेस् आगच्छति लो राण्डम्नेस् है एनर्जि इति भवति इति एवं रीत्या सर्वत्र यत्र यत्र क्लोस् सिस्टम् अस्ति अपि उदाहरणं भवतु नाम क्लोस् सिस्टम् अस्ति तत्र एतादृशं भवति इदानीं वयं ब्रह्माण्ड किं प्रश्नः अस्ति वा प्रश्नः अस्ति महोदय it seems uh, to be a closed system it is now interacting with the rest of the environment so it's no longer a closed system right so as well yeah, then the thing should yeah. be uh, it should be well contained within it right yeah i'm not able to hear you properly some background noise can you mm -hmm. i don't know what the problem no? Atta? Yeah. is no better i i want to hear you clearly what i are anay shrotam shaknawanti va तर्हि तत्र हा यावत्पर्यन्तं बोटल् मध्ये अस्ति तदेव क्लोस् सिस्टम अस्ति बहिः गच्छति चेत् क्लोस् सिस्टम नास्ति तत्र रेण्डम्नेस् अधिकं भवति यदि क्लोस् सिस्टम् मध्ये भवति तदानीम् अस्माभिः प्रयासः करणीयः आन्गोइन् मेण्टेनेन्स् रिक्वैर्ड् अस्ति तदानीमेव तत्र यथा अस्माभिः इष्यते तथा भवति एवम् इदानीम् अस्माभिः उदाहरणं दृष्टं गृहस्य अनन्तरं घटस्य उदाहरणमपि दृष्टं पर्फ्यूम् बाटल् इत्यस्य उदाहरणं दृष्टम् इदानीं वयं विषये पश्यामः चेत् विश्वम् अपि एका एकं सिस्टम् अस्ति अ क्लोस् सिस्टम् अस्ति यूनिवर्स् इस् अ क्लोस् सिस्टम् तत्र विश्वस्य पृष्ठतः बुद्धिः न स्यात् चेत् तर्हि जगत् एवं न भवति अत्यन्तं अत्यन्तं व्यवस्थितं व्यवस्थितं भवति अपि च तत्र है एनर्जि स्टेट् अपि भवति ऊर्जा अधिका भवति सो है एनर्जि स्टेट् मीन्स् थिङ्ग्स् आर् मूविङ्ग् इन् अ इन् अ रेस्ट्रिक्टेड् वे रैट् यथा तत्र द प्लेनेट्स् गृहाणां द प्लानेट्स् आर् मूविङ्ग् इन् दि आर्बिट् Uh, the, the the solar system is properly arranged the sun is uh, where it is supposed to be located moon is supposed to be located sarvam atyantam so vyavasthitam asti brahamande kalo tarhi tatraapi kloss system asti tatra kascana order apekshitah asti tatra kaha icchati iti cet parmatma icchati param purushah icchati yat etadrishti vyavastha bhavet iti sah icchati tadartam ten prayasah kriyate तेन प्रयासः क्रियते तेषां वस्तूनां निर्वाहार्थं परमात्मना प्रयासः क्रियते यथा लौकिक उदाहरणानाम् अस्माभिः लौकिक उदाहरणानां विषये चर्चितं तथैव लौकिक उदाहरणानां द्वारा परमपुरुषः कथं कार्यं करोति इति वयं द्रष्टुम् इच्छामः तत्र विश्वस्य पृष्ठतः बुद्धिः काचित् अस्ति काचित् बुद्धिः अस्ति इति वयम् अवगच्छामः तत्रापि यदि परमपुरुषः एवं रीत्या तत् क्लोस् सिस्टम् तत्र ब्रह्माण्ड ब्रह्माण्डः इति क्लोस् सिस्टम् अस्ति यथा जले जलं गटे वयं स्थापयामः तथा ब्रह्माण्डः विशालः अस्ति नास्ति संशयः परन्तु इट् इस् इन् नाट् इन्फैनैट् ब्रह्माण्डः नास्ति विश्वः कथं कार्यं करोति इति चेत् ब्रह्माण्डे सर्वाणि वस्तूनि स्वयमेव स्वयमेव सुव्य सुव्यवस्थायाः अनुसरणं न कुर्वन्ति दे स्वाभाविकी प्रवृत्तिः तथा नास्ति तेषां स्वभावः तथा नास्ति व्यवस्थे व्यवस्थित्यरूपेण वयं स्थापयितुम् इच्छामः चेत् तदानीं केनचित् प्रयासः करणीयः सः इति चेत् परमात्मा तेषां सर्वेषां कृते व्यवस्थां स्थापयति परमात्मा एव स्थापयति विश्व विश्वः यथा तत्र लौकिकोदाहरणानि सन्ति तथैव विश्वः अपि अस्ति विश्वस्य पृष्ठतः बुद्धिः अस्ति इति व्याख्यातुमेव अस्माभिः एन्ट्रोपि एन्ताल्पि इति विषयस्य विषये चर्चां कृतवन्तः अस्य अस्माकं लक्ष्यं एन्ट्रोपि एन्ताल्पि इति नास्ति अस्माकं वर्गस्य लक्ष्यं तद् नास्ति अस्माकं लक्ष्यं योगः अस्ति इदानीं तत्र किम् अस्माभिः अवगन्तव्यम् इति चेत् विश्वस्य पृष्ठतः काचित् बुद्धिः अस्ति बुद्धिः अस्ति इति वयम् अवगच्छामः चेत् पर्याप्तं परन्तु तत्र कम्पेरिज़न् वयं कर्तुं शक्नुमः एन्ट्रापि एन्ट्रोपि एन्टाल्पि इत्यस्य कार्यं विश्वस्य विषये अपि सम्यक्तया प्रवर्तते तत्र सम्पूर्णब्रह्माण्डः तस्मात् चैतन्यात् एव निर्मितम् अस्ति आ, सर्वं जगत् तस्मात् चैतन्यात् निर्मितम् अस्ति परन्तु चैतन्यं व्यवस्थायाः बहिः अपि अस्ति बाह्ये अपि अस्ति चैतन्यम् इति कृत्वा तत्र विश्व विश्वः एकं क्लोस् सिस्टम् अस्ति Uh, the system that uh, the vishwa is made of consciousness it's made of consciousness chaitanyena nirmitam asti chaitanyam vyavasthayaaha vahih hi api asti chaitanyam eva vyavasthayaaha nirikshanam karoti he monitors this system this close system he make sure that this system is functioning properly everything is placed where they're supposed to be placed and they're moving properly there's an ongoing energy supply from paramatma to make this system function properly sa eva sa eva nirikshanam करोति यदा निरीक्षणं करोति तदानीं लो राण्डम्नेस् भवति है एनर्जि भवति इति तस्यां अवस्थायां सो द युनिवर्स् इस् आल्सो द सेम् वे सो वि यूस् दिस् एण्ट्रोपि अन् एण्टाल्पि टु एक्स्प्लेन् दट् देर् इस् अ बुद्धि बिहैण्ड् दिस् यूनिवर्स् एण्ड् दिस् दिस् दिस् चैतन्यम् इस् इन् सैड् द युनिवर्स् एण्ड् इस् आल्सो औट्सैड् द युनिवर्स् दिस् युनिवर्स् इस् मेड् आफ् चैतन्यम् इस् अ इन् द इन्फैनैट् एण्टिटि द परमात्मा परमपुरुषः he made this whole universe out of consciousness and he is also external to this system right those external to this system and he is being external to the system he is maintaining the system he is maintaining the energy of the system right to maintain a minimum randomness and uh, minimum disorderliness and increasing the uh, and, and going on increasing the energy so this this is true for uh, every closed system इति एव अस्माकम् इत्येव वक्तुम् इच्छामि तत्र कोपि एतावत् अवगतं वा प्रश्नः अस्ति वा इदानीं श्रूयते वा महोदय इदानीं श्रूयते वा सो टु थिङ्ग्स् मेन्शन् वन् इस् क्लोस् सिस्टम् आर्डर् क्लोस् सिस्टम् बै एक्स्टर्नल् एनर्जि इन्पुट् So HEPT itself, the closed system will degrade unless there is an input from external source. It's a supremacist, right? Yes. Yes. Ongoing, uh, ongoing energy supply to the, uh, the closed system. If the ongoing energy supply is not there, I'm going to mute you for a minute. There is background noise. So if ongoing energy supply is not there, then the system naturally deteriorates to the state of uh, disorderliness with low energy supply. That is what is the thing. And that the energy supply here is the container that we are saying, is that what it is? Yes. First? Okay. Yes. So energy supply last... in the case of the room is uh, somebody maintaining the room. Mm -hmm. And in the last week uh, there was a, uh, within that water example we mentioned also some heat being applied to the container of the water. Yes. तदपि उदाहरणं भवितुमर्हति तदपि उदाहरणं भवितुमर्हति यथा गटे जलमस्ति जलं बायलिङ्ग् स्टेट् मध्ये स्था स्थापनीयम् इति अस्माकं लक्ष्यमस्ति ऐम् गोङ्ग् टु न्यूट्यू फार् एनेट् सोरि जलं तत्र जलं हाट् भवतु इति अस्माकं लक्ष्यमस्ति तदर्थम् अस्माभिः एक्स्टर्नल् एनर्जि सोर्स् सप्लै करणीयं तेन वाटर् बाय्लिङ्ग् स्टेट् मध्ये आगच्छति इदानीं तत्र एक्सर्नल् तदर्थं केनचि प्रयासः करणीयः यदि प्रयासः न क्रियते तदा तदानीं तत्र वाटर् विल् कम् टु इट्स् नेचुरल् स्टेट् आफ़् बीङ्ग् कोल्ड् रैट् देन् विल् बि द लो एनर्जि स्टेट् इति यत्किमपि उदाहरणं क्लोस् सिस्टम् मध्ये वयं स्वीकर्तुं शक्नुमः अस्तु अपि च इत्युक्ते तत्र यत्र यत्र क्लोस् सिस्टम् मध्ये इत्युक्ते जगति तत्र केवलं सूर्यमण्डले एव परमात्मा अस्ति अन्यत्र नास्ति वा इति एवं रीत्या अवगमनमस्ति वा क्लेशः अस्ति कान्फ्लिक्ट् अस्ति इति भवता इव पृष्टं खलु सो तदर्थं किं वक्तव्यम् इति चेत् एतद् यद्यद् अस्माभिः यद् उदाहरणम् अस्माभिः दृष्टं एता एतानि सर्वाणि अपि ह्यूमन् मेड् सिस्टम्स् सन्ति सो दीस् ह्यूमन् मेड् सिस्टम् फङ्क्षन् अकार्डिङ्ग् टु अवर् स्टाण्डर्ड्स् what we want for that system how we want that system to work these are all based on our atmakam iccha anusaram ete sarve close systems nirmitaha yata ekam griham bhavatu kupiyam sugandha dravyam bhavatu etani sarvani manushyehi stapitaha manushyehi etani sarvani stapitani santi the close system so atmakam daitvam bhavati etesham vijaye halo asmabihi atmakam balam prayujya एत वयम, वयम् कृते व्यवस्थां स्थापयामः रैट् इस् आर् आल् ह्यूमन् मेड् सिस्टम् वेदर् इट् इस् अ हौस् आर् पर्फ्यूम् बाटल् आर् अ पाट् परमपुरुषस्य तु सम्पूर्णं जगत् अस्ति तत्र कोऽपि स्थानं नास्ति यत्र परमपुरुषः नास्ति सः स्वयं स्वस्य आदर्श स्वस्य स्टाण्डर्ड् अकार्डिङ्ग् टु हिस् ओन् स्टाण्डर्ड् हि मेण्टेन्स् दि आर्डर् इन् दिस् एण्टैर् यूनिवर्स् यु यूनिवर्स् सम्पूर्ण ब्रह्माण्डे क्रमं निर्वहति यथा प्रकोष्ठे गन्धः प्रवहति प्रसरति तर्हि तत् अव अव्यवस्थितरूपेण तिष्ठति प्र प्रकोष्ठे गन्धः प्रसरति चेत् अव्यवस्थितरूपेण तिष्ठति परमपुरुष परमपुरुषस्य कृते गन्धः कूप्यां भवतु वा बहिः भवतु तस्य कृते न समस्या तत्र डिजर्डिनेस् भवति चेत् तस्य कोऽपि न तस्य न कोऽपि समस्या न कोऽपि न समस्या तेन कस्यचिदपि हानिः न भवति खलु तत्र प्रकोष्ठः स्वच्छरीत्या भवतु वा अस्वच्छरीत्या भवतु वा तेन परमपुरुषस्य हानिः नास्ति इत्युक्ते तत्र कस्यचित् हानिः नास्ति तत्र तत् ह्यूमन् मेट् सिस्टं वयम् इच्छामः तत्र किं केचिज्जनाः मेस्सि हाउस मध्ये अपि वासं कर्तुम् इच्छ कर्तुम् कर, अर्हन्ति केनचित् तथा न कर्तुं कर्तुं न इष्यते इति तत्र अस्माकं ह्यूमन् मेड् सिस्टम् अस्ति परमपुरुषस्य कृते पर्फ्यूम् एकस्मिन् स्थाने भवतु इति आवश्यकता नास्ति सम्पूर्णब्रह्माण्डं सम्यक्तया कार्यं करोति चेत् तदेव तदेव परमपुरुषः परमपुरुषस्य लक्ष्यं तस्य कृते सः करोति सर्वं ता, यथा भवेत् तथा सः कार्यं करोति किमपि हानिकारकं न भवेत् किमपि हानिकारं न भवेत् द टेण्डेन्सि टुवर्ड्स् इन्क्रीसिङ्ग् एन् प्रोपि इस् नाट् हार्म्फुल् टु द फङ्क्शनिङ्ग् आफ़् द युनिवर्स् रैट् इत्युक्ते कुत्रचित् डिज़ार्डर्लिनेस् अस्ति लोके इति तेन कस्यचित् हानिः नास्ति यदा अस्माभिः वी वाण्ट् टु क्रियेट् अ क्लोस् सिस्टम् तदानीम् अस्माभिः प्रयासः क्रियते तेन कस्यचित् अपि हानिः नास्ति सो इफ् ह्यूमन् बीङ्ग्स् वाण्ट् अ पर्फ्यूम् टु स्टे इन् वन् प्लेस् but paramapurusha does not need the perfume to stay in one place there is no harm if it is stays in other place also so he only make sure that the universe is functioning properly and for that he has created a closed system and he makes sure that there is nothing harmful he the, the planets have to be in their orbit so that this whole brahmanda functions properly so he he places his energy on those things and he doesn't place energy in, in the rest of the place where uh, even if there is lack of order the, the order that we expect it is not there doesn't matter तस्य कृते तत् तेन किमपि कस्यचित् हानिः न भवति अतः अस्माभिः इत्युक्ते यथा तत्र उद्यानमस्ति उद्याने अस्माकम् उद्यानम् अस्ति चेत् वयं वि सेलेक्ट् वि देट् इस् अ क्लोस् सिस्टम् अण्ड् वि सेलेक्ट् वाट् प्लाण्ट्स् वि वाण्ट् देर् लैक् वि मै वाण्ट् रोस् प्लाण्ट् विरेट्स् विङ्गो ट्रीस् विस् वि मे पुट् डेम् इन् डिफ़रेण्ट् रोस् बट् वेन् यु लुक् एट् द फारेस्ट् तत्र वनं वयं पश्यामः चेत् तत्र भिन्नभिन्नवृक्षाः सन्ति ते पङ्क्तौ अपि न स्थापिताः ते वृक्षाः पङ्क्तौ न स्थापिताः दे आर् नोट् अरेञ्ज् इन् एन् आर्डर् यत्र कुत्रापि वृक्षाः भवन्ति अण्ड् आल् डिफ़्रेण्ट् कैण्ड्स् आफ़् स्पीशीस् आफ़् प्लाण्ट्स् आर् देर् आल् डिफ्रेण्ट् कैण्ड्स् आफ़् इन्सेक्ट्स् दर् आल् डिफ़्रेण्ट् कैण्ड्स् आफ़् एनिमल्स् आर् देर् दे आर् नोट् अरेञ्ज् इन् आर्डर् देट् द वेवि वुड् एक्स्पेक्ट् देम् सर्वं मिश्रितम् परन्तु तेन तेन कस्यचित् हानिः नास्ति यथा अस्माकम् उद्यानमस्ति तथा नास्ति परन्तु कस्यचित् हानिः नास्ति तत्र एतादृशं भवति तत्र क्रमेण एव भवतु इति नास्ति तत्र खलु अतः यत्र आवश्यकं तत्र एव सः एतादृशम् आर्डर् स्थापयति इति कृत्वा सर्वत्र परमात्मा अस्ति यत्र आर्डर् अस्ति तत्र एव परमात्मा अस्ति नास्ति सर्वत्र अस्ति यत्र आवश्यकं यतोहि सः एव ओनर् अस्ति अस्य सिस्टम् इस् ओनर् आफ् दिस् विश्व so he decides where he wants order so we cannot we cannot question that the there is no order over here according to what we expect right there is order everywhere according to how he expects so itikrutva kleshaha nasti avagatama sva ka namarad atra atra asmaka mula visaya kaha iticet asra visvasya prishthatah kacit buddhi buddhi hi vardate काचित् बुद्धिः वर्तते इति वयम् अवगन्तुं शक्नुमः तदर्थमेव अत्र एन्ट्रोपि अन्ताल्पि इति विषयः स्वीकृतः आसीत् तत्तु तियरि नास्ति सम्यक्तया कार्यं करोति सर्वत्र क्लोस् सिस्टम् मध्ये सर्वत्र सम्यक्तया कार्यं करोति केवलं तियरि इति नास्ति कियरि इति कृत्वा प्रमाणं नास्ति इति ना। सम्यक्तया सर्वत्र कार्यं करोति भवन्तः स्वयमेव द्रष्टुं शक्नुवन्ति अस्तु अत्र इतोपि किमपि अस्ति वा अग्रे गन्तुं शक्नुमः अस्तु तर्हि इदानीम् अस्माकं विषयं प्रति गच्छामः तर्हि गतवर्गे तु एन्ट्रोपि एन्टल्पि इति विषये अस्माभिः चर्चितं तर्हि इदानीं किञ्चित् अग्रे गच्छामः मम मा स्लैड् दृश्यते वा तर्हि तत्र कुत्र स्थगितम् इति चेत् गतवर्गे तत्र उक्तं तत्र विश्वस्य पृष्ठतः बुद्धिः अस्ति इति अस्माभिः अवगम्यते सा बुद्धिः चैतन्यम् अथवा परमपुरुषः तत् चैतन्यमेव जगतः मार्गदर्शनं करोति सर्वं यत् अपेक्षितं तथा तत्र सुन्दरीत्या सर्वं व्यवस्थितम् अस्ति तत् चैतन्यम् अनादिः अनन्तः अपि वर्तते अपि च अस्मिन् जगति अस्माकं मनुष्याणां धर्मः तु अनन्तेषणा इति उक्तमेव तर्हि तादृश अनन्तकामस्य पूर्तिः अनन्तपरमपुरुषेण सह परमपुरुषेण परम भवति केवलम् अस्मिन् जगति परमपुरुष एव अनन्तः वर्तते जगति अन्यत् यत्किमपि वर्तते तत्सर्वम् अपि तस् तेषां सर्वेषामपि अन्तः अस्ति किमपि अनन्तः नास्ति अस्मिन् जगति परमपुरुषं विहाय अन्यत् किमपि अनन्तं नास्ति मनुष्याणां धर्मः अस्ति अनन्तेषणा तादृशी अनन्तेषणा अनन्त अनन्तेषणा या अस्ति तस्याः पूर्तिः परमपुरुषेण एव भवति अनन्तकामस्य तृप्तिः कथं प्राप्यते मनुष्यैः इति चेत् चैतन्येन एव प्राप्यते अस्य विश्वस्य पृष्ठतः एका बुद्धिः वर्तते एका सत्ता वर्तते चेतना वर्तते या चेतना सर्वस्य मार्गदर्शनं करोति सा सत्ता एव परमपुरुषः एव सर्वं सृजति अस्मिन् जगति सर्वं सृजति सर्वस्य मार्गदर्शिका च भवति अपि च परमपुरुषेण एव सर्वम् अत्र जगति सम्यक्तया व्यवस्थितं सुन्दररीत्या व्यवस्थितम् अस्ति तदेव प्रमाणमस्ति यत् विश्वस्य पृष्ठतः बुद्धिः अस्ति सर्वे मनुष्याः ज्ञात्वा वा अज्ञात्वा वा तत्र चैतन्यम् एव प्राप्तुम् इच्छामः हि वाण्ट् अटेण्ड् दट् इन्फैनैट् इति अस्माकं सर्वेषाम् अक्ष्यम् अस्ति अस्तु एतावत् अवगतं चेत् अग्रे गन्तुं शक्नुमः अस्तु इदानीं किञ्चित् अग्रे गच्छामः तत्र योगः इति विषयः तु लोके प्रसिद्धः वर्तते योगः इति नूतनः विषयः नास्ति लोगः लोके, लोके प्रसिद्धः विषयः वर्तते परन्तु अत्र वार्ता का का इति चेत् अद्यत्वे लोके योगः इत्यस्य अर्थः कः योगशब्दस्य अर्थः कः इति प्रायेण जनाः न अवगच्छन्ति इ इदानीं योगः इति एकं एक, एक, एक, एक, एक फिट्नेस् रोटीन् इति जातं फेशन् अथवा फेड् इति जातमस्ति सम्पूर्णविश्वे बहवः जनाः योगेन सह संलग्नाः सन्ति संलग्नाः सन्ति अस् अस्मिन् लोके बहवः योग योगा स्टुडियोस् सर्वं सन्ति योगा स्टुडियोस् सन्ति परन्तु तत्र ये योगाध्यापकाः अध्यापकाः सन्ति ते सम्यक्तया न अवगच्छन्ति योगः इति शब्दस्य अर्थः कः ते न इति अत्र वास्तविकस्थितिः इदानीं योगः इत्यत्र योगस्य अंशः अस्ति अङ्गम् अस्ति योगासन योगासन तद् इदानीं किं जातम् इति चेत् लोके योग योगाङ्ग अंग, योगाङ्गानां योगाङ्गेषु केवलं योगासनं इति एव योगासनम् इति योगात् विच्छिन्नम् अस्ति इट् इस् अस् सेपरेटेड् औट् फ्रम् द आल् द अङ्गस् यथार्थयोगात् एकः भागः विच्छिन्नः अस्ति तर्हि इदानीम् अस्माभिः योगः इति शब्दस्य वास्तविकः अर्थः कः इति अस्माभिः अवगन्तव्यम् इत्युक्ते बहवः न जानन्ति बहवः किं चिन्तयन्ति चेत् योगः इत्युक्ते केवलं योगासनम् इति एव चिन्तयन्ति फिट्नेस् रोटीन् इत्येव चिन्तयन्ति परन्तु योगः इत्यस्य वास्तविकः अर्थः कः इति वयं पश्यामः चेत् तत्र योगः इति इत्यस्य अर्थः कः तत्र ओके okay. तर्हि इदानीं तत्र मया आङ्ग्लभाषायां लिखितमस्ति यतोहि सर्वेषाम् अवगमनं भवतु मुख्यविषयः अस्ति इति कृत्वा सर्वेषाम् अवगमनं भवतु इति कृत्वा आङ्ग्लभाषायाम् अपि स्थापितमस्ति तत्र योगः इत्यस्य संयोगः इत्यर्थः योगः इत्यस्य संयोगः इत्यर्थः यदा वयं संयोगः इति वयं वदामः चेत् तेन् वि नीड् टु थिङ्ग्स् फार् संयोग संयोगार्थं वस्तुद्वयम् अपेक्षितमस्ति तत्र वस्तुद्वयं किम् इति चेत् कयोः संयोगः इति प्रश्ने सति इट्स् अ यूनियन् आफ़् द फैनैट् वित् द इन्फैनैट् यूनियन् आफ़् द युनिट् एक्सिस्टेन्स् वित् द कास्मिक् एक्सिस्टेन्स् आफ़् द यूनिट् मैण्ड् वित् द कास्मिक् मैण्ड् यूनिट् इत्युक्ते अस्माकं सर्वेषां वि हेव् अस्माकं मनः अस्ति मनः तु शरीरे एव निवसति अस्माकं सर्वेषां प्रत्येकं मानवस्य एकं मनः वर्तते तदेव स्मॉल ऐ इति वयं वदामः स्मॉल ऐ इति वदामः तत् स्माल् ऐ हेस् अ नेम् इट्स् लैक् इट् हेस् अ स्पेफिक् नेम् इट् आफ़् अ नेम् बोर् रामा श्यामा गीता लीला वट् अवर् द नेम् मे बि एव्रिबडी हेस् अ नेम् एण्ड् That name is, that is the name of asmakam, tad nama asmakam, manasaha, the small eye feeling that we have. Aham aham iti eha bhava hasti, tafsya eva nama karanam hasti, tadrisha bhava ha sarvesha manishyanam vartate. Tartha sarvesha manishyanam vartate. Asmakam ante, we have the small eye feeling, asmakam ante, the cosmic eye feeling api hasti, vayamna jani maha, cosmic eye feeling api hasti. yogaha ityate the the merger the union of that small i feeling with that cosmic i feeling the cosmic i feeling tadeva yogaha iti artha right tadatatra eva aham brahmaasmi iti vakyam agacchati aham brahmaasmi iti vakyam atma vihi sarvayi srutam eva aham brahmaasmi aham ityate ai brahma iti parama purushaha i am that brahma इति वाक्यम् अस्माभिः सर्वैः श्रुतं तर्हि तस्य अर्थः कः अस्माभिः अवगम्यते वा तस्य अर्थः कः इति वयम् इदानीं पश्यामः तर्हि तत्र इदानीं संस्कृतेनपि मया स्थापितमस्ति योगशब्दस्य अर्थः कः तदपि एकवारं पश्यामः अहं ब्रह्मास्मि इति वाक्यं किम् अस्ति अवगमनात् प्राक् तर्हि योगशब्दस्य अर्थः कः इति चेत् योगः इत्युक्ते संयोगः इति अर्थः संयोगः इति यदा वयं संयोगः इति वयं वदामः चेत् तदानीं तत्र द्वौ विषयौ स्तः संयोग संयोगार्थं वस्तुद्वयं भवेत् तदानीमेव संयोगः भवति इदानीं मम हस्तद्वयम् अस्ति यदा अहं योजयामः हस्तद्वयं योजयित्वा अहं नमस्कारः इति वयम् वदामि चेत् मम हस्तद्वयं योजितं वर्तते तदानीं हस्तद्वयोः द्वयोः हस्तयोः संयोगः वर्तते एवं संयोगः इत्युक्ते वस्तुद्वयं भवेत् अत्र कयोः संयोगः इति चेत् अणुचैतन्यस्य ब्रह्माण्डीयचैतन्येन सह संयोगः द स्माल् ऐ वित् द कास्मिक् ऐ संयोगः अणुमनसः अणुमनसः भूमामनसा सह सः सः सः संयोगः मनसा सह संयोगः अणुमनः इति द यूनिट् मैण्ड् भूमा भूमामनः इत्युक्ते द कास्मिक् मैण्ड् अथवा लघु लघु अहङ्कारः यः अस्ति वर्तते अस्माकं लघु अहङ्कारः तस्य भूम अहङ्कारेण सह संयोगः अस्माकं सर्वेषां नाम वर्तते रामः श्यामः लीला गीता सीता यत् किमपि भवतु नाम अस्माकं सर्वेषां मनुष्या सर्वेषां मनुष्याणां तत्र नाम वर्तते अस्माकं यदा जन्म भवति तदानीं नामकरणं क्रियते प्रत्येकं मानवस्य एकं नाम वर्तते तद् नाम अस्माकं लघु अहङ्कारस्य भावनायाः नाम वर्तते इट्स् द नेम् आफ़् दट् स्माल् ऐ फीलिङ्ग् परन्तु प्रत्येकं मनुष्यः मनेश, मनुष्ये एकः बिग् ऐ फीलिङ्ग् अपि अस्ति कास्मिक् ऐ फीलिङ्ग् अपि अस्ति एकः एकः ब्रह्माण्डीयः अहम्भावः अपि अस्ति तत्र एव अहं ब्रह्मा इति वाक्यम् आगच्छति बाल्यकालात् एव अस्माकं नामकरणं भवति यदा वयं तत्र कस्यचित् बालस्य नाम नामकरणं कुर्मः तदा वयं तस्य लघु अहङ्कारस्य अहङ्कारभावः यः अस्ति तस्य एव नामकरणं कुर्मः सर्वदा अस्माकम् ऐ ऐ ऐ इति आगच्छति खलु तया लघु तत्र तया लघु तेन लघु अहंभावेन सः जनाः अतीव आसक्ताः भवन्ति पीपल् गेट् वेरि वेरि अटाच्ड् टु देर् स्माल् ऐ फ़ीलिङ्ग् दे गेट् वेरि अटाच् टु देर् स्माल् ऐ फीलिङ्ग् सम्पूर्णजीवनं न केवलं तस्मिन् अहम्भावे जनाः आसक्ताः भवन्ति अपि तु तस्य लघु अहङ्कारस्य रक्षणार्थं सम्पूर्णजीवनं यापयन्ति तस् न केवलं रक्षणार्थं महिमामण्डलम् mahima mandana mithite glorify they would like to glorify the i small i feeling tadartameva janaha sampurna jivanam yapayanti etkimapi vemkurmaha atmakam aham bhavasya rakshanartham eva vaim kurmaha laguh aham bhavasya mahima mandana prayasah glorification yadavayam kurmaha tadani vayam duram duram gachchamaha we would go far and far away from the cosmic i the more and more we glorify our ahankara we go far away from that cosmic i idanim tasya sahyoga yogaaityate sahyoga aituktam tasmim sandarbheva aham brahmatmeeti vakyam agacchati aham brahmatmeeti vakyam agacchati tat brahma tat brahma eva bhuma aham bhavhati tat brahma is it cosmic i paramapurushah अनन्तचैतन्यं यत् जगत सुव्यवस्थितं स्थापयति तदेव चैतन्यं तत् चैतन्यमेव ब्रह्म भ्रमणा सह मम सम्बन्धः वर्तते भ्रमणा सह मम सम्बन्धः वर्तते ब्रह्मणा सह यः सम्बन्धः मम सम्बन्धः वर्तते तं सम्बन्धम् अहं ज्ञातुम् इच्छामि मम प्रयत्नः अस्ति तेन ब्रह्माण्डेन सह मम सम्बन्धः कः इति अहं ज्ञातुम् इच्छामि वस्तुतः वास्तविकं किम् अस्ति अहं तेन सह एकः अस्मि अहं तेन सह एकम् एकः अस्मि अथवा एकः अस्मि अहं परमपुरुषेण सह एकः अस्मि परन्तु अहं न जानामि खलु न जानामि अहं तः सः एकः अस्मि इति यदा अनुभूयते अहं ब्रह्मणा सह यदा मया ब्रह्मणा सह ऐक्यं प्राप्यते तदानीं योगः इति वयं वदामः तदानीं योगः इति वदामः तर्हि इदानीम् अग्रे अहं ब्रह्म अस्मि इत्यस्य विषये पुनः तस्य अवगमनं कथं भवेत् इति पुनः अग्रे वयं पश्यामः तदानीम् इदानीं योगः इति शब्दस्य अर्थः कः इति कः वदति तत्र अनिमवद् वक्तुमिच्छति वा सङ्क्षेपेण वा अथवा योग केवलं योगः इति शब्दस्य अर्थः कः इति यथा इदानीं संयोगः इति अर्थः केन सह संयोगः इति अग्रे विवृतम् तस्य विवरणम् अस्ति अग्रे तदपि पठामि वा संयोगः भवति यथा पूर्वं वयं क्लोज़् सिस्टम तत् सर्वम् उक्तं तथा तेन सह अनन्तेषन अस्ति किल अस्माकं तत् ते ब्रह्मन् अस्ति परमात्मा तेन सह एव अस्माकं संयोगः भवति चेत् अस्माकम् अनन्त पूरितं भवति इति अस्ति तदर्थं योगस्य मार्गं वयं स्वीकुर्मः तत् अभ्यासः इत्येवं न अस्ति योगासनं तु एकः एव अङ्गः अस्ति परममर्थमस्ति संयोगः इति परमात्मना सह इति अस्ति आम् आ इदानीम् अस्माकं सर्वेषाम् अन्तः अस्ति स्माल् इति अहम् अहम् इति अस्ति मम नाम अस्ति अहम् ईक्वल् टु अनिमा इति भवति अन्येषां सर्वेषां ता तादृशमेव भवति परन्तु अस्माकं सर्वेषाम् अन्तः कास्मिक् ऐ अपि अस्ति तद्वयं न जानीमः तेषां सर्वेषां You say, to get that into us to realize that yoga karma karoti yoga vyasa asanam niti eva nastiti hmm samichanam samichanam prame <pause> samet praptam itid tatra etad tatra jalam asti jale vayam a tatra kim asti salt etad vayam stapaya mahajale tadanim katam bhavati salt completely dissolve bhavati kala jale and just get mixed up completely evam अत्र यूनियन् अथवा य संयोगः इत्युक्ते अस्माकम् अहाम्भावः तत्र द कास्मिक् ऐ इति अन्ते गत्वा इट् शुड् कम्प्लीट्लि गेट् डिसाल्ट् लैक् द साल्ट् गेट् डिसाल्ड् इन् द वाटर् तदेव योगः इट् बिकम्स् वन् इट् कट् कम्प्लीट्लि अस्माकम् अहाम्भावः कास्मिक् अहम्भावेन सह संयुक्तः तथा संयुक्तः भवति येन अस्माकं स्वतन्त्र एक्सिस्टेन्स् तत्र स्वस्वतन्त्र अस्तित्वं न भवति इट् गेट्स् कम्प्लीट्लिस्ड् तदेव तत्र योगः तदानीम् अस्माकं पृथक् अस्तित्वं न भवति yes, तदेव योगः अस्ति यदा अस्माकम् अहं भावः कास्मिक् ऐ ब्रह्माण्ड्यचैतन्येन सह तथा संयुक्तः भवति येन तयोः पृथक्करणं न शक्यते इदानीं तत्र स्वस्य अस्तित्वं स्वस्य अहं भावः तस्मिन् सम्पूर्णतया किं मिश्रितं भवति येन अस्माकं स्वतन्त्र अस्तित्वं न भवति तदेव तत्र योगः इति वयं वदामः धन्यवादः अस्तु समीचीनं तर्हि इदानीं तत्र योग योगशब्दः अत्र वस्तुतः अहं अहम् इति यद्वदामः अहं ब्रह्मास्मि इत्यत्र अहम् इति वदामः खलु अहम् इति अहं ब्रह्म इति अहम् इत्युक्ते अहम् इति ऐ इति वयं जानीमः वस्तुतः द लघु लघु अहं लघु अहं भावः लघु अहं भावः यः भावः वर्तते वस्तुतः सः अहं भावः वस्तुतः अहं ब्रह्म अहं तत् अनन्तं वस्तुतः अहम् अनन्तम् अनन्तम् अस्मि अनन्तमस्मि न पृथक् यतोहि अहं न पृथक् अस्मि तस्मात् अहं पृथक् नास्मि चैतन्यात् अहं पृथक् न अस्मि यतोहि अस्य सर्वस्य जगतः मार्गदर्शनं तत् चैतन्यमेव कुर्वत् अस्ति खलु तस्य चैतन्यस्य आदिः अपि नास्ति अन्तः अपि नास्ति चैतन्यं सर्वः जगतः सर्वस्य जगतः मार्गदर्शनं करोति तर्हि कथं तेन अहं पृथक् भवितुम् कथमहं तेन प पृथक् भवितुम् अर्हामि यतोहि तत्र सर्वं जगत चैतन्येन एव निर्मितं तस्मात् बहिः किमपि नास्ति सर्वं चैतन्यम् अतः अहं कथं चैतन्यात् पृथक् भवितुम् अर्हामि अतः मम अन्तः अपि चैतन्यं वर्तते यतः मम अन्तः यदस्ति तदपि तस्मात् पृथक् न सर्वत्र बहिः अपि चैतन्यं मम अन्तः अपि अतः मम अन्तः यत् यत् अस्ति तद् तत्र द ओशन् आफ़् कान्शियस्नेस् तस्मात् पृथक् कथं भवितुम् अर्हति अहं ब्रह्मास्मि इति वाक्यस्य साक्षात्कारः एव योगविज्ञानम् अहं ब्रह्मास्मि इति वाक्यस्य साक्षात्कारः एव योगविज्ञानं तत्र अहं ब्रह्मास्मि इति केवलं पुस्तकं वयं पठामः पठामः चेत् ब्रह्मास्मि इति अनुभूतिः न जायते अहं ब्रह्मास्मि इति अनुभूतिः न जायते इते सामान्यतया वयं किं कुर्मः इति चेत् बहु अधिकं ज्ञानं सम्पादयामः बहु अधिकं पठामः अहं ब्रह्मास्मि सोऽहम् अथवा तत्त्वमस्ति इत्येवं रीत्या बहु किमपि वयं पठामः कण्ठस्थीकुर्मः केवलम् अहं मम मुखात् अहं ब्रह्मा इति अहं वदामि चेत् तत् पर्याप्तं वा अहं ब्रह्म इति अनुभवार्थं कथं केवलम् इदानीं मया उक्तम् अहं ब्रह्मा इति तेन मया ब्रह्मण ब्रह्मणम् अनुभूतं वा तेन वा ब्रह्म मया अनुभूतं वा तर्हि यदि भवन्तः एतद् वाक्यं जानन्ति वक्तुं शक्नुवन्ति तर्हि भवन्तः भवन्तः अर्थम् अवगतवन्तः वा यत् अहं ब्रह्म इति अर्थम् अवगन्तवन् अवगतवन्तः इति इत्यपि अत्र एतत् पुस्तकीयज्ञानं नास्ति पुस्तकात् पुस्तकीयज्ञानं नास्ति पुस्तकात् अनुभूतिः न प्राप्यते अहं ब्रह्मास्मि इत्यनेन यः यत् लक्ष्यम लक्ष्यम् अस्ति तद् न प्राप्यते पुस्तकीय पुस्तकीयज्ञानात् न प्राप्यते प्रथमतया अवगन्तव्यं परन्तु तदर्थम् अस्माभिः प्रयासः करणीयः योगः इस् अ वेरि प्राक्टिकल् सैन्स् व्यवहारिकज्ञानं विज्ञानम् अस्ति जीवनस्य एकः मार्गः अस्ति एतादृशं जीवनं योगः इत्यत्र तादृशजीवनं यत्र यस्मिन् प्रत्येकं क्षणे प्रत्येकस्मिन् दिने प्रत्येकं क्षणे एकैक एकैकं क्षणं वयम् अहं ब्रह्मास्मि इति वाक्यस्य साक्षात्कारं कुर्मः अहं ब्रह्मास्मि इति वाक् वाक्यस्य साक्षात्कारं कुर्मः अहं तस्मात् पृथक् अस्मि अहं तस्मात् पृथक् नास्मि एव प्रत्येकं मनुष्यः बाल्यकालात् बहिः मनुष्यः अन्तः पशुः अस्ति अतः ते न अवगच्छन्ति यत् वास्तवतः ते ते ते के सन्ति इति मनुष्याः मनुष्याः अवगच्छन्ति ततः किं भवति इति चेत् कदाचित् तत्र किशोरावस्थायां तेषां तत्र गेटनवेकनि तेषाम् अन्तःकरणं तेषाम् अन्तश्चक्षुः जागरितं भवति जागरितः भवति तदानीं ते प्रष्टुं ते प्रश्नान् पृच्छन्ति यदहं कः अहं कुतः आगतः अहं कुतः गच्छामि अहं कोऽस्मि इत्येतादृशप्रश्नः आगच्छन्ति यदि ते तत् तद् अनन्तचेतनायाः कृपा कृपया एतेषां सौभाग्यः अस्ति चेत् ते, ते भगवत्कृपया तत्र ता तादृशपुरुषस्य सम्पर्के आगच्छन्ति यः तेषां मार्गदर्शनं कर्तुं शक्नुवन्ति एते एतेषां प्रश्नानाम् उत्तरं ते प्राप्तुं शक्नुवन्ति अतः योगः इति पुस्तकीयज्ञानं नास्ति अहं ब्रह्मा इति अपि पुस्तक केवलं पुस्तकीयज्ञानं नास्ति तद्वयं तत् साक्षात्कारः एव योगस्य लक्ष्यमस्ति पुस्तकं पठित्वा ज्ञातुं शक्नुमः इति इति विचारः वर्तते परन्तु तत्तु सत्यं नास्ति तत्र अस्माकं लघु अहं भावः कास्मिक् अहं भावेन सह यदा संयुक्तः भवति तादृशसंयोगः कथं प्राप्तुं शक्यते इति चेत् तत्तु व्यवहारिकविज्ञानम् अस्ति तत्तु अभ्यासेन एव भवति अभ्यासेन एव ब्रह्मणः ब्रह्मणः साक्षात्कारः भवति अतः योगः व्यवहारिकविज्ञानम् अस्ति अथवा तत्र व्यवहारिक योगे व्यवहारिकविज्ञानं किम् अस्ति इति चेत् तदस्ति साधना साधना अथवा मेडिटेशन् इति वयं वदामः अत्र साक्षात्कारस्य प्रक्रिया अहं ब्रह्मा अस्मि इति वाक्यस्य अनुभूतिः अथवा साक्षात्कारः साक्षात्कारस्य प्रक्रिया का अस्ति इति चेत् योगनिष्ठजीवनम् अनन्तरं साधना योगनिष्ठजीवनं तत्र कथं व्यवहारे अस्माकं व्यवहारः कथं भवेत् अस्माकम् आहारः कथं भवेत् अस्माकं तत्र तत्र आसनानि कानि अस्माभिः करणीयानि अपि च मेडिटेशन् कथं करणीयम् एतत् सर्वम् एतत् सर्वं योगः इत्यस्य भागः अंशाः सन्ति साधनायाः माध्यमेन ब्रह्म साध्यं भवति साधनायाः मार्गेण एव ब्रह्म साध्यं भवति साधनाशब्दस्य मेडिटेशन् ध्यानम् इति अर्थः अस्ति अस्तु तर्हि इदानीम् अत्र चन्द्रमौळि महोदय वक्तुमिच्छति वा आं महोदयति योगः इति नाम यूनियन् जीवात्म परमात्म योग संयोगः एव योगः सो योग इस् अ सैन्स् विच् एक्स्प्लेन्स् अस् हौ टु अचीव् दोस् यूनियन् बट् अगेन् इट्स् नाट् समथिङ्ग् दी केन् जस्ट् रीड् इन् बुक्स् वि केन् अक्वैर् द नेज् बट् इन् आर्डर् टु अचीव् दी हाव् टु वि हाव् टु इन्कल्केट् द स्टेप्स् ओर् इट् शुट् बिकम् अ वे आफ् लैफ़् सो दाट् योग ईस् अबौट् सो i mean with consciously whatever we do uh, if we have uh, the attitude towards achieving that uh, you know the union um, our our every behavior our food our activities everything should be towards that goal uh, that is the whole essence of uh, what yoga wants to achieve is what i understood but more so what do you no that's what i understood my thanks हा समीचीनं समीचीनम् इति प्रयोगः इति व्यवहारिकविज्ञानम् अस्ति अस्माकं सर्वेषाम् अस्माकं जीवनस्य मार्गदर्शनं कर्तुं शक्नोति तदर्थम् अस्माभिः प्रयासः करणीयः प्रयासः करणीयः अत्रापि क्लोस् सिस्टम् इत्यस्य विषये चिन्तयितुं शक्नुमः चिन्तयन्तु तत्र यन्त्रोपि यन्ताल्पि इत्यस्य विषये अत्रापि चिन्तयितुं भवन्तः स्वयं चिन्तयन्तु परन्तु तत्र विषयः कः इति चेत् अहं ब्रह्म इति इति वाक्य इति केवलं वाक्यस्य पठनेन अस्माकं साक्षात्कारः मोक्षः न लभ्यते तदर्थम् अस्माभिः प्रयासः करणीयः योगः इति मार्गः व्यवहारिकविज्ञानम् अस्ति येन अस्माभिः ब्रह्मणः अनुभवः साक्षात्कारः अनुभूतिः प्राप्तुम् अनुभूतिः प्राप्तुं शक्यते तत्तु साधनाद्वारा एव लभ्यते साधना मेडिटेशन् तस्मिन् विषये इतोपि अग्रे वयम् इतोपि पश्यामः तत् साधनाद्वारा एव भवति जीवनम द्वारा अपि भवति इति अत्र विषयः अस्ति प्रश्नाः सन्ति वा नो चेत् अत्र वयं समयः अतीतः इति कृत्वा अत्र वयं स्थगनं कुर्मः अस्तु तर्हि अत्र स्थगयामः समीचीनं धन्यवादः नमस्कारः धन्यवादः भगिनी धन्यवादः महोदय धन्यवादः